ययातिरुवाच एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने पृथग् धर्मा पृथक् शौचास्तेषां तु ब्राह्मणो वरः देवयानुवाच पाणिधर्मो नाहुषायं न पुंभिः सेवितः पुरा तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः कथं नु मे ऋषिपुत्रेण स्वयं ययातिरुवाच वृद्धा दाशीविषात् सर्पाज्ज्वलनात् सर्वतो मुखात् दुराधर्षतरो विप्रो ज्ञेयः पुंसा देवयान्युवाच कथमाशी सर्पात् ज्वलनात् सर्वतो मुखात् दुराधर्षतरो विप्रा इत्यार्थपुरुषर्षभा ययातिरुवाचा एकमाशीविशो हन्ति शस्त्रेणैकश्च वध्यते हन्ति विप्रः स राष्ट्राणि पुराण्यपि हि कोपितः दुराधर्षतरो विप्रः तस्माद्भीरुमतो मम अतो दत्तां च पित्रा त्वां देवयान्युवाच दत्तां वहस्वतन्मा त्वम् पित्रा राजन्व्रतो मया नास्ति दत्तां च प्रतिगृह्णतः वैशम्पायन उवाच त्वरितं देवयान्याथ सन्दिष्टं पितुरात्मनः सर्वं निवेदयामास धात्री तस्मै यथा तथं श्रुत्वैव दर्शयामास भार्गवः दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः